ोऽध्यायः ध्यानम् ओ विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् रीषणाम् कन्याभिः करवालकेतविलसत्ताभिलाचेदिताम् कन्याभिक्रबालखेटविलसद्धताभिराचेदिताम् हस्तैश्चक्रकदातिखेटविशिखांश्चापम् गुणम् तर्जनी हस्तैश्चक्रकदातिखेटविशिखांश्चापम् गुणम् तर्जनी बिभ्राणामनलात्मिकाम् चिधराम् दुर्गाम् त्रिनेत्राम् भजे विभ्राणामनलात्मिकाम् सचिधराम् दुर्गान्त्रिनेत्राम् भजे ओम् देज्युवाच ओम् देज्युवाच एभिः प्रवैश्च माम् नित्यम् स्तोच्यते यत्समाहितः एभिः प्रवैश्च माम् नित्यम् स्तोच्यते यत् समाहितः सस्याहम् सकलाम् तर्त्याहम् सकलाम् बाधाम् नाशयिष्याम्यसंशयम् मधुकैतभनाकम् च महिषा सुरघातनम् मधुकैतभनाकम् च महिषासुरघातनम् कीर्तयिष्यन्ति ये तद्वद्वधम् शुम्भनि शुम्भयोः कीर्तयिष्यन्ति ये तद्वद्वदम् शुम्भनि अष्टम्याम् चतुर्थस्याम् नवम्याम् चैकसेतसः अष्टम्याम् स चतुर्थस्याम् नवम्याम् चैकसेतसः श्रोष्यन्ति चैव ये भक्त्या मम माहात्यमुत्तमम् श्रोष्यन्ति चैव ये मम माहात्यमुत्तमम् न तेकाम् दुष्कृतम् किञ्चित् दुष्कृतोत्थानचापदः न तेषाम् दुष्कृतम् किञ्चित् दुष्कृतोत्थानचापदः भविष्यति न दारिद्र्यम् न चैवेक्षवियोजनम् भविष्यति न दारिद्र्यम् न चैवेक्षवियोजनम् शरतृतोऽनभयम् तस्य धस्युतो वा न राजतः तस्य धस्युतो वा न राजतः नक्षत्रानरतौ यौघा कदाचित्तम् नक्षत्रानरकौ यौघा सदाचित्तम् भविष्यति तस्मान् ममैतन्माहात्यम् पठितव्यम् समाहितैः तस्मान् ममैतन्माहात्यम् पठितव्यम् समाहितैः श्रोतव्यम् तदा भक्त्या परम् स्वस्ययनम् हितत श्रोतव्यम् च तदाभक्त्या हितते उपसर्गानेषांस्तु महामारी समुद्भवान् तत् उपसर्गानेषांस्तु महामारी समुद्भवान् तत्तथा त्रिविधमुत्पातम् माहात्म्यम् समयेन्म तथा त्रिविधमुत्पातम् माहात्म्यम् समयेन्म यत्रैतत्पच्यते सम्यग् नित्यमायतने मम यत्रैतत्पच्यते सम्यग् नित्यमायतने मम तदा न तद्दिमोक्ष्यामि सान्निभ्यम् तत्क्रमे स्थितम् सदा नद्दिमोक्ष्यामि बलिप्रदाने पूजायामग्निकार्ये महोत्सवे बलिप्रदाने पूजायामग्निकार्ये महोत्सवे सर्वम् ममैतत्सरितमुच्चार्यम् काव्यमेव च सर्वम् ममेतत्करितमुच्चार्यम् काव्यमेव जानता जानता वापि कृताम् जानता जानता वापि कृताम् प्रतीक्षिष्याम्यहम् प्रीत्या वह्निहोमम् तथा कृतम् प्रतीक्षिष्याम्यहम् प्रीत्या वह्निहोमम् तथा कृतम् ले महापूजा क्रियते याजवार्षिकी तस्याम् ममैतन्महात्यम् श्रुत्वा भक्तिसमन्वितः तस्याम् ममैतन्महाच्यम् श्रुत्वा भक्तिसमन्वितः सर्वा बाधा विनिर्मुक्तो धनधान्यभूताञ्जितः सर्वा बाधाविनिर्मुक्तो धनधान्यकृताञ्जिरः मनुष्योगप्रसादेन भविष्यति न कंशयः मनुष्योगप्रसादेन भविष्यति न श्रुत्वा ममेतन्माहात्यम् तथातोत्पत्तयः सुभाः श्रुत्वा ममेतन्माहात्यम् तथातोत्पत्तयः सुभाः पराक्रमं युजाते निर्भय पुमाक्रमंधे जायते निर्भय पुमास्त कल्याण सोपब्यते ऋतवस्त कल्याण सोपब्य नंदतेल पुंसान महात्म्यं मम शृवता नन्दतेतकुलम् पुंसाम् माहात्यम् मम शृण्वता शान्तिकर्मणि सर्वत्र तथा द्विस्वप्नदर्शने शान्तिकर्मणि सर्वत्र तथा द्विस्वप्नदर्शने ग्रहवीरासुतोत्रासु माहा ग्रहवीरासुतो ग्रासु माहात्यम् शृणुयान् मम उपसर्गामम् यान्ति ग्रहपीडाच्चारुणाः उपसर्गाश्चमम् यान्ति ग्रहपीडाच्च दारुणाः द्रुत्वप्नम् च नृभिर्दृष्टम् स्वस्वप्नमुपजायते द्रुत्वप्नम् च मृभिर्दृष्टम् स्वस्वप्नमुपजायते बालग्रहाभिभूतानाम् बालानाम् क्षान्तिकारकम् बालग्रहाभिभूतानाम् बालानाम् शान्तिकारकम् सङ्घातभेदे तरुणाम् मैत्रीकरणमुत्तमम् सङ्घातभेदे तरुणाम् मैत्रीकरणमुत्तमम् दुर्वृत्तानामखेकानाम् बलहानिकरम् परम् दुर्वृत्तानामकेकाणाम् बलहानिकरम् परम् रक्तोभूतपिशाचानाम् पठनादेवनातनम् रक्तोभूतपिशाचानाम् पठनादेवनातनम् सर्वम् ममै तन्माहात्यम् मम सन्निधिकारकम् सर्वम् ममैतन्माहात्यम् गन्धदीपैः स्वथोत्तमैः कटुपुष्पार्ध्यभूपैश्च गन्धदीपैः प्रथोत्तमैः विप्राणाम् भोजनैर्होमैः प्रोक्षणीयैरहर्णिकम् विप्राणाम् भोजनैर्होमैः प्रोक्षणीयैरहर्णिकम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेणया अन्यैश्च स्फीतिर्मे क्रियतेशास्मिन् प्रकृत्तुदरिते श्रुते स्त्रीतिर्मे क्रियतेशास्मिन् प्रकृत्तु दरिते श्रुते श्रुतम् हरति पापानि तथारोग्यम् प्रयच्छति श्रुतम् हरति पापानि तथारोग्यम् प्रयच्छति रक्षाम् करोति भूतेभ्यो जन्मनाम् कीर्तनम् मम रक्षाम् करोति भूतेभ्यो जन्मनाम् कीर्तनम् मम युद्धे सुचरितम् यन्मे दुष्टदैत्यनिबर्हणम् युद्धे सुचरितम् यन्मे दुष्टदैत्यनिबर्हणम् तस्मिन् श्रुते वैधिकृतम् भयम् पुंसाम् न जायते तस्मिन् श्रुते वैधिकृतम् भयम् पुंसाम् न जायते युष्माभिःतयो याश्च याश्च ब्रह्मर्षिभिः कृताः युष्माभिः कृतयो याश्च याश्च ब्रह्मऋषिभिः कृताः ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति सुभाम् मतिम् ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति सुभाम् मतिम् अरण्ये प्रान्तरे वापि दावाद्यपरिवारितः अरण्ये प्रान्तरे वापि दावाद्यपरिवारितः दस्यो बापि दस्वृतशून गृहो वापतशून गृह शत्रु सिंहव्याघ्राणुयात वा भने वनहस्ंहव्याघ्राणुयात वा भने वनहस्ा क्रुदेन का जप्त बो बंधगत राज्ञा क्रुद्धेन काग्यक्तो बभ्यो बन्धगतोऽपि वा आघूर्णितो वातेन क्षितः पोते महार्नवे आघूर्णितो वातेन क्षितः पोते महार्नवे पदर्तु चातिशक्रे कुसङ्ग्रामे भृदारुणे पदर्तु चातिशक्रे पुसङ्ग्रामे भृदारुणे धासुघोरासु वेदनाभ्यर्चितोऽपि वा सर्वाधासु घोरासु वेदनाभ्यर्थितोऽपि वारितम् मरन्मैतत्करितम् नरोमुच्येतसङ्कटात् मम प्रभावात् सिंहास्या दस्य वो वैरिणः प्रभादेवपलायन्ते स्मरणस्तरितम् मम स्मरस्तरितम् मम विधिनुवाच विधिनुवाच इत्युक्वासा भगवती सञ्चिकाचण्डविक्रमा इत्युक्वासा भगवती सञ्चिकाचण्डविक्रमा पश्यतामेव देवानाम् तत्रैवान्तरधीयत पश्यतामेव देवानाम् तत्रैवान्तरधीयत तेऽपि देवानिरातङ्कास्वाधिकाराण्यथा पुरा तेऽपि देवानिरातङ्कास्वाधिकारान्यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनिहदालयः यज्ञभागभुजः दैत्याश्चदे ज्यानिहते पुम्भेदेवलिपो युधि दैत्याश्चदे ज्यानिहते पुम्भेदेवलिपो युधि जगद्विध्वंसिनि तस्मिन् महोग्रेतुलविक्रमे जगद्विध्वंसिनि तस्मिन् महोग्रेतुलविक्रमे निपुम्भेतमहावीर्ये तेषाम् पातालमायिजुः निपुम्भेतमहावीर्ये तेषाम् पातालमायिजुः एवम् भगवती देवी तानि पुनः पुनः एवम् भगवती देवी तानित्यापि पुनः पुनः सम्भूय कुरुते भूप परिपालनम् सम्भूय कुरुते भूपजगतः परिपालनम् तये विश्वम् तैव विश्वम् प्रसूयते तयैतन्मोक्ष्यते विश्वम् तैव विश्वम् प्रसूयते सायादितादभिज्ञानम् पुस्तारभ्यम्पयस्पति सायादितादभिज्ञानम् पुस्तारभ्यम्पयस्पति जातम् तयै तत्सकलम् ब्रह्माण्डम् अनुजेश्वरा जातम् तयै तत्सकलम् ब्रह्माण्डम् अनुजेश्वरा महाकाल्या महाकाले महामारीस्वरूपया महाकाल्या महाकाले महामारी स्वरूपया सैवकाले महामारी सृष्टिर्भवत्यजा सैवकाले महामारी सैव सृष्टिर्भवत्यजा क्षितिम् करोति भूतानाम् सैव सनातनी क्षितिम् करोति भूतानाम् सैव काले सनातनी भवकाले गृणाम् सैव लक्ष्मीर्वृद्धिप्रदा गृहे भवकालेन्दृणाम् सैव लक्ष्मीर्वृद्धिप्रदा गृहे सैवाभावे तथा लक्ष्मीर्विनाखायोपजायते सैवाभावे तथा लक्ष्मीर्विनाखायोपजायते सुगा सम्पूजिता पुष्पैर्भूपगन्धादिभिस्तथा सुगा सम्पूजिता पुष्पैर्भूपगन्धादिभिस्तथा े गतिम् सुभा ददादिवित्तम् पुत्रांश मतिम् धर्मे गतिम् सुभा इति श्रीमार्कण्डेयपुराणे इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवी वर्णिके मन्वन्तरे देवीमाहात्म्ये दे फलस्तुतिर्नामद्वादशोऽध्यायः